विन्द्रिणी नूनमग्निम् पित्रोरुपस्थे षत्तमस्य जलदो ध्रुवस्य विश्वादिवोरोधनापप्रिवांसम् उक्षामः अजरस्तस्था विधवो जनऋश्वः ्या पदो निदधातिसानो अस्या। समानं अस्य समानम् वत्समभि सञ्चरन्ति विश्वग्धेनो विचरतः सुमेके अनपवृज्याम् मध्वे विश्वाङ्केताम् महोदधाने। ीरा सः पदम् नयं नयन्ति नाना हृदा रक्षमाणा दुर्गम् शिषा सन्तः पर्य पश्यन्त सिन्धु माविरेभ्योऽभवत् सूर्योषेण्यः परिकाष्ठा सुजेण्ययीरेण्यो महो अर्भाय जीवसे पुरुत्राजभवत्सूरवेभ्यो गर्भेभ्यो मघवाः विश्वदर्शतः रथाते अग्ने सुदयम् वायोददासुर्वाजेऽभिरासुषागाः उभे यत् लोकेतनजेदधानादस्वधाम् प्रणयन्तदेवाः बोधा मे अस्य पच सोऽजमिष्ठमुष्टस्य प्रभृतस्य स्वधावः त्वो अनुत्वो गृणादिवन्दारुस्ते दन्वं वन्दे अग्ने ये वायवो माम ते गन्ते अग्ने पश्यन्तो अन्धम् दोविराधरक्षन्क्षतान् सुकृतो विश्ववेदादित्सन्तयद्रिपभो नागदे भुः यो नो अग्ने अररिवाङ्गयुरराजीवा वर्चयतिद्वयेन मनुन्द्रो गुरुः पुनरस्तुसो अस्मानो मिवेष्टधर्मम् दुरुद्धैः उत वा यः सहस्य प्रविद्वान् मर्तो मर्तम् वर्चयातिद्वयेन अत पायिस्तपमानस्तु बन्दमग्ने वाकम् माधीराजधारीः ृष्टो मादरि स्वाहोदारम् विश्वात्सम् विश्वधर्मादृश्यासभृक्ष स्वा अर्णचित्रम् भूषय विभावम् ददा न विन्नभन्तवन् मा गर्वरो धर्ममतस्य काकन् दुषन्त विश्वान्यस्य कर्मोपस्तुतिम् भरमानस्य कालो नित्ये चिन्जम् सदने च गर्भे प्रशस्त्यभिज्ञया सह प्रसूनायन्तश्वासो नो रारः पुरूणी दस्मो विरीरादिजम्भैराद्रो च देवनाविभावास्य वातो वादिषु चिरस्तु न सर्यामस नाम नयम् विपभोजरे कण्ण्यभोगर्भे सन्तम् प्रेषणा रेषय अन्धा पश्यानदभन्नभिक्षा नित्याशयी प्रेतारो अलक्षणम् महस्य राजजेषपजर्दन्निनजिनस्य पशुनः पदः उपद्रजम् दमद्राजो विधन्नित् यो वृढा नराम् नरोदस्योऽस्रवोभिरस्ति जीवीसर्गः व्रजस्तस्रानश्रिश्रीतयोनौ आयः पुरम् नार्मे नेव दत्यः कविर्नभन्नो नार्वा सु रुक्वाञ्छदात्मा अभि द्विजन्मा त्रीरो वचनानि विश्वा रजांसि सुस्तात् होताो अपांसधस्थे अयम् स होतायो द्विजन्मा विश्वा दधे वार्याणिश्वपस्या मत्तो यो अस्मै सुषु गो ददाश उरुत्वा दाश्वान्वचेतिरग्ने तपस्विता क्रोधस्येवस्य व्यानस्य धनिन प्रहोषे चितररुढः कदाचन प्रजिगतो अदेवयोः स चन्द्रो विप्रवर्त्यो महो राधम् तमो दिवि प्रप्रेते अग्ने वनुषस्याम मेत्रम् नयं सिञ्जाकोषो गव्यवस्वाध्यो विदधे अप्सुजीनन् अरे चेताम् रोदसीपा च सा गिरात् प्रिप्रियञ्जलञ्जनुमवाह यद्धद्वाम्बुरुमेढस्य सोमिनः प्रमित्रा सोमदधिलेष्वाभुवाः तुम् वितकम् गातुमच्च तः श्रोतम् मृगणा पश्चवतः आवाम्भूषान् क्षिरजो प्रवाचणालक्षे महे यदि मृता जभतो प्रहोत्र याशिम्याविधो अध्वराम् युवम् दिवो ऋषतो रक्ष मा भान्नुपयुञ्जाते महिला वारमृण्ण वस्तुरमन् धेनवाः स्वरम् दिताऊपरदा जशो यमा निमृत गृहतस्तवीरीव ृताय केशिनीरनुषतमित्रय त्रवरुण गातुमर्चः पृजतम् पिन्वतम् धिरो जिवम् विप्र समन्मनाभिरजतः यो वाम् यज्ञैः समानो हरसति गविर्होतान्मसाधनः उपाहरम् गच्छसो बीजोध्वरमच्छागिरस्वस्मयू ुवाम् यज्ञैः प्रथमा गोभीरञ्जता वा नामन सोनप्रयुक्तिषु मन्मना संयता किलो दृप्यता मनसा रेवता आसाथे रेवद्वयो ददाथे रेवता आसाथे नरा मायाभिमाहीनाम् ोहभिर्नोत सिन्धवो न देभम् पणयो नर्मघम् युवम् वस्त्राणि बीभावसाधे युवो रच्छिद्रामन्तोह सर्गाः अपादिरतमुदानि विश्वऋतेन मित्रावरुना सुचेथे एकश्च न त्वो विचीकेतदेषाम् सत्यो मन्त्रः कपि शस्तृगावान् ूरश्रिरुग्रोदेह प्रथमादूर्यन् अपादे प्रथमापद्वतीनाम् कस्तद्वाहम् मित्रावरुणाचीकेत गर्भो भारम्भरत्याचीदस्य ऋतम् विभक्ति नृतम् निरारीयन्तीजानङ्कनीनाम् पश्यामसिनोपनिपद्यमानम् अनपप्रज्ञापिततावसा आनम् प्रियम् मित्रस्य वरुणस्य धाम अनस्व जातो आनभीरुर्वाकनिक्रदूर्ध्वसा आनो अचितम् ब्रह्मजुजुषुर्युवानः प्रमित्रे धाम वरुणे गृह्णन्ताः आहेन वो मामते न मम ब्रह्म प्रियम् दिभजान्सस्मिन्ु भ विद्वोऽभिक्षेतवयुनानि विद्वानासा विवासन्नदीतिमुष्येत् आम् मित्रावरुणा हव्यष्टिम् नमासा देवामपसा वृद्या अस्माकम् ब्रह्मवृता नासु दह्या अस्माकम् वृष्टिर्दिव्यासु पारा यामेव महस्रजोषाः हव्येभिर्मित्रावरुणा नमोभिः ो अधरद्वास्मे अध्वर्यवो नीरिभृद्वरन्ति तस्तु दर्वाम्बरप्रयुक्तिरयाः मे मित्रावरुणासु वृत्तिः यद्वाम् विदधे होदासुनम् वाम् सूरप्रेरणाभिलक्षणम् पीमाय धेनुरति दर्लता जनाय मित्रावरुणाः भिर्दे हिनो दियद्वाम् विदधे समर्याम् स रातौ व्योमानो न होता उत वाम् यक्षुमध्या स्वन्धो गावापश्च पीपजम् च देवी उतो नो अस्य भूर्वः पत्यर्दम् गीतम् पातम् पया स पुश्रिया कृष्णाम् वीर्या निोदञः पार्थिवालिभिममे रजांसि यो अस्कभाजदुत्तरम् सदस्तम् विचक्रवाणस्त्रेदोरुगायः प्रतरतिष्णस्तवदे वीर्येण मृगो न भीमः कूचरोगीरिष्ठा यस्यो ऋषु त्रिषु विक्रेषु क्षयन्ति भुवनानि यजिगम् दीर्घम् प्रजातम् सधः समेकोऽयमे त्रिभिर्परेभिः यस्य पूर्णा मधूना पदान्यक्षीयमाना स्वधया वदन्ति यवत्रिधातु पृथिवी पुरद्यामेको दाधारभुवनानि विश्वा सदस्य प्रियमपि पातो अस्याम् नरो यत्र देवजवोमदन्ति गुरुक्रमस्य दहि बन्धुरित्या विष्णोः पदे परमे मध्वसाः सा भाम् वा सूर्यमध्ये यत्र गावो भूरि शृङ्गाहयासाः गायस्य वृष्टः परमम् पदमपभाजि भूरि रः पान्तमन्धोधियाजते महेशूरायविष्णभेदार्चना या सानूनिपर्वता नाम ताभ्य मनस्तर्वदेव साधुना एषमिथ्या समरहंसिमीवतोरिन्द्रा विष्णोऽसु तपापामोष्यति यामत्या यः प्रतिधीयमानमितृानोरस्तूरसनामोरुष्यथायीम् वर्धन् तिमह्यस्य पौंशम् निमातरा नयदेतसे भुजे पुत्रोपरम् परम् पितुर्नाम तृतीयमधिरोचने दिवः तत्तदितस्य पुंस्य गृणीमशीलस्य प्रादुराृणस्य मेलुषाः यः पार्थीवाणित्रिभिर्द्विगामभिरुक्रमिष्टोरुगायाय जीवसे ललितस्य क्रमाणे स्वदृशो भिख्या च मत्यो भुरण्यति वस्य न किरात दर्शति वयश्च न पदयम् दः पदत्रिणाः चतुर्भिः साकम् न बलिम् च नामभिः शक्रम् न वृत्तम् यदीन्द्रीहच्छरीरो कुमारप्रत्येत्याहम् भवा मित्रो न सेव्यो घृतासु निर्विभू तद्युम्नये दे विष्णो विदुषा चिदध्यस्तोमो यज्ञस्य राज्यो हविष्णता पूर्व्याय वेदसेनवीयसे सुमध्या न जय विष्णवेददा सरि यो जातमस्य महतो महि तमस्तोदारः पूर्यम् यथा वितरितस्य गर्भम् जनुषाः विपत्तन आस्य जानन्तो रामचिद्विवक्तन महस्ते विष्णोऽसु मतिम् भजामहे तवस्य राजामनो नस्तमश्विना कृतम् स चम् क्षमुत्तमम् हर्विदम् व्रजम् जविष्टस्य कीवायो विवाय सचथाः जी जरिन्द्राः जविष्टः सुकृतेः सुकृतरः एन्मत्र मृतस्य भागे यजमानमाभजत् ग्ो योषाश्चन्द्रामह्या वृषा आयुक्षातमस्वि न जात वेद सम्रासा वीद्देवः स पिता जगत्पृथ अतस्माकम् ब्रह्मसु जिन्वतम् भजम् धनासूसाता भजे महि अर्वाङ्क्रिचक्रोमधुव नो रथो जीरास्वो अश्विनोर्यादु सुष्टूतः मघवा विश्वसौ भगः सन्नः वक्षद्विपते च दुष्पते आनवोर्जम् वहतवश्विना युमम् मधूमत्या रः कामिक्षणम् ृक्षे गो भवत्सो युवम् विश्वेषु भुवनेष्वन्तः युवमग्निम् च वृणना भवश्र मनस्पतीन्द्रस्विरा वैराजेथा युवम् हस्तो भिगजा भेदभिरसो हस्तो रथा तोः क्षत्रमधिधत्त उग्रायो माम् गमिष्मात्मना सा ददा सा वसुरङ्गोऽपि वादयमनाः ओ हरि ओ वसूरुद्रा कुर्वन्तु बृहन्ता ष्टौ दश्रावे कौ सत्यो वाम् वा को वाम् राजस्सु मदये जि तस्यैव सूर्यध्ये ते नमः सापदेगोः जिगतमस्मेरेव धी पुरम् धीकामप्रेण देप सचरन्ता युक्तो हयद्वाम् सौव्याज मेरुमध्ये अर्णसोधायि वज्रः उपवामशरणङ्गमेजम्सूरो राजपदयभिनेवैः उपस्तुमुष्येन्मा मामिमेपदत्रिणे विदुग्धा मा मे द्रोदसादयश्चितो धात्वि यद्वाम् मद्धस्वनिकादा दिक्षाम् न मा नद्योः मातृत मा दासा यदीन्द्रुतमुग्धमबाधूः शिरो यदस्य त्रैतनोऽपितक्षस्वयम् दासगुरोऽम् सावविद्ध दीर्घद मा मामथे योजोजुर्वाञ्चशमे युगे अपामर्थम् यतीनाम् ब्रह्मफलवति सारथिः प्रद्यावा यज्ञेः पृथिवीरितामृथा मही स्तू वितसे प्रचेतसा देवे धर्ये देवपुत्रे सुतम् सेच्छाधिया वार्याणि प्रभूषता पुरवन्ये वितराजवो मनो मातुर्मस्तद्धीमभिः सुरेतसा पितरा भूमचक्रुप्रजायाः अमृतम् परीमभिः ते सूनभस्वपादश्रुतम् सासो महीजज्ञर्मातराः पूर्वजित्तने स्थातुश्च सत्यम् जगातश्च धर्माणि पुत्रस्य पातः पदमद्मा यामिनः ते मालिनो वा ममिने सुप्रचेतसो जामीषयोमिथुना समोकसा नव्यम् नव्यम् तन्तुमातम् वदे दिविषा मुद्रे अन्तः कवयः सुीतयाः राधो अद्यत विदुर्वरेण्यम् भजम् देवस्य प्रसमेवा नामहे अस्मभ्यम् या वा पृथिवीसुचेतुना रजिम् दत्तम् वसूमन्दम् सदग्निनम् पृथिवी विश्वसम्भुवृता वा रीरजा सोदारयत् कावी श्रीधिषणे अन्तरीयते दे देवो देवी धर्म नासूर्यश्रुतीः गुरव्यचा महिनी असश्चता पिता माता च भवानानि रक्षतः श्रीकृष्णामेव पुष्ये रोदसी पितायत् श्रीमभिरूपैरवासयत् सवर्ण्यः पुत्रः पित्रोः पवित्रमान्पुनातिथे रोहुवानानि मायया धेन च वृष्णम् ऋणभम् सुनेत संविश्वाहा शुक्रम् वयो अस्य दुःखत अयम् देवाना मपसा मपस्त भोजो जजा न रोदसी ी सुप्राचरेभरे तेनोग् महि ने महि श्रवाः क्षत्रम् या वा पृथिवी दासतो बृहत् येनाभिवृत्तिस्ततनाराम विश्वः भरायमो यो अस्मेम्भरम् श्रेष्ठक्तिम् जमिष्ठो नीयज दूजा अन्तजूजिवा न्य चमसंयो माहाद्वोग्नेभ्रातृमयद्भूरिमोदिव एकम् च मसम् चतुरः कृणोद न तद्वो देव अब्रुभन्धद्वागमम् सौधम् वराजेवाकारष्यत साकम् देवैर्यज्ञयासो भविष्यत अग्निम् दूतम् प्रति यतब्रवीदरा स्पः कर्त्वरथा बुदेहकर्त्वा येनुः कर्त्वायुवसा कर्त्वा द्वाराणि भ्रातरो वः यदावाद्यश्च मसाम् चतुरः कृतानादिपष्टाज्ञा सन्तन्यामादैनाग्निपष्टादिदब्रवीच्च मञ्जेते भवा नमनिन्द्रियोन्यानामादिकते सुते सता अन्यैरेनाम् कन्या आम विस्फरत् अस्ति नारदसम्बस्पतिर्विश्वरूपामुपाजतदेवाङ्गत स्वयम् भागमेतः निश्चर्म नो गामारिणीतधीतिभर्याचरम् ताजुवसाताग्रे नूतन सौधन् अस्मदस्मरमतक्षतयुक्तार समुपादेवाजातन इरमोदकम् पीपदेत्यब्रवीदनेदम्बाघापितामुने जलम् सौधम्बनायघासवा नेमादजा भोजष्टादित्येको अब्रवीदग्निर्भोजष्ट इत्यन्यो अब्रवीत् अदर्यन्तीम् बहुभ्यप्रेगो अब्रवीहृता वदन्तश्च मसाङ्गांसत श्रोणामेका बुधामवाचि मांसमेकः पिंसति सूनयाभृतम् रजस्वृतेको अपाहरपिंशित्पुत्रेभ्यः पितरागुपावतुः स्वस्माग्णोतनातृणम् विवत्स्वश्च वस्य जानरः स्य यदशस्तन गृहे तदद्येतमुभवनानुगच्छता सम्मेल्यो असर्वदयः परस्रम्बादयः प्राब्रभीप्रो तस्मा अब्रवीतना सुषुक्त्वाम् सो योध स्वानम् वस्तो बोधयितारात्संवत्सरम्याप्यमरुतो अन्तरिक्षेण याति अध्वर्यादिवरुणः समुद्रेर्युष्मान्विच्छन्दः समतोऽनपादः मानो मित्रो वरुणो अर्यमाजलिन्दर्भुक्षमरुतः परिच्छन् यद्वाजिनो देवजातस्य सप्ते प्रभक्ष्यामो विदसे वीर्याणि यन्निर्ण्यजाले प्रसा प्रावृतस्य दातिङ् गृभीताम् कतो नयन्ति सुप्रागजोमेम् यद्विश्वरूप इन्द्रभूष्णोऽप्रियमप्येधिपासाः एतच्छागः पुरो अश्वेदवाजिनाः पूर्ष्णो भागो नीयते विश्वदेव्याः अनैः यत्पूरो समर्वादाम् संस्रवसा जिन्वतिष्य मृदसो देहे वजानम् धर्माणो नयन्ति ष्पः प्रथमो नजः यज्ञम् देवेभ्यः प्रतिवेदयन्नयः दे होदाहध्वर्युरावाजाग्निन्दोग्रावग्रामबुदसम् दासु विप्रः तेन यज्ञेन स्वारम् कृतेन स्विश्वेण ना भक्ष नाप्रेणध्वम् ना रूपरस्कामुदयेपवाहाश्च शामञ्जे अश्वरूपाय रक्षरति म् संभरम्भूर्तिर्मतु उपप्रागात् सुमन्मेधा जमन्म देवानामासा उपीतपृष्ठः अन्मेणम् विप्रारुषायो मदन्ति देवानाम् पुष्टे च कृमसुबन्धुम् सन्तारमर्पतोसीदृण्या रसरारज्जूरस्य स्य क्रमिषो मक्षिका स यद्वा स्वरो स्वभीतो रिक्तमस्ति यद्धस्तजो स्वमितर्यन्नखेषु सर्वाताते दे अपि देवेष्वस्तु यदूमध्यमुदरस्यापमादिज आमस्य क्रविशो गन्धो अस्ति सुकृलादच्चमितारः क्रम्ब्वन्तु तमेधम् श्रुतपाकम् पचन्तु यत्तेकात्रा रग्निना वच्यमानाथविषूरम् निगातस्य बधा तद्भोम् नामाश्री हन्मातृषु देवेभ्यस्तदृशद्भ्यो रातमस्तु हे परिपश्यन्ति पक्वम् ययी मातुः सुरभिर्निर्भरेति येषार्म मांसभिक्षामुपासतभुतो तेषामभिगोत्यर्मयिन्वतु यन्वीक्षणम् मांसजन्यामुखा यायामात्राणि गोष्णासेतनानि गोष्मण्याभिधानातरुणा मङ्गलाः सूनाः परिभूनम् च स्वम् विक्रमणम् निषदानम् निवर्तनम् यच्च पद्भिः समर्वतः यच्च पपो यच्च घासिम् जघासर्वादा ते दे अभिदेवेष्वस्तु मात्वाग्रध्वनये धूमकम् धर्मो घाभ्राजम् चभिवित्तजग्धीः इषम् वीतमभिगोक्तम् वृढकृ देवादीग्रब्धम् च स्वम् यदस्वायवादमुपसृढम् च धीवासम् जाधिरन्यान्यस्मै छन्दनमर्वम् कम्प्री सम्प्रिया देवेश्वाया मयन्ति यदि ते सा देवः सा सुकृतस्य पाश्याः पाकस जावाता हविषो अध्वरे ब्रह्मणासूदयामि सदसृम् सद्वाजिनो देववम् धोराम् घ्रीरस्वस्य श्रुती कच्छिद्रागात्रा भजुना कृणोदपरुष्पुरनुभुष्यापि सस्ता एकस्पष्टुरश्वपि सस्ता द्वायन्तारा भवतस्तथा ऋतुः गात्रा नामृतथा कृणोऽता गाविन्दानाम् प्रयोहो जग्नौ महात्वा तपत्प्रिय आत्मा प्रियन्तम् वा स्वधीतिस्तन्मादिष्टिवत्ते छिद्रा गात्राण्यसि राधूगः नेष्यसि देवा निले पथिभिः दे सुयुञ्जापृषादि अभूतामुपास्ताद्वाजीधुरिनाभस्य सुव्यम् त्वंसः पुत्रा विश्वपुषम् रयिम् म् नो अधिणोत क्षत्रम् नो अस्यो मनतामभिमाने हिरक्रन्द्र प्रथमम् जायमानभुज्याम् समुद्रा दृतबाहुली शेनस्य पक्षहृणस्य बाहूपस्तुत्यम् महि जातम् ते अर्वन् इमे न दत्तम् धृतये एनमायुषगिन्द्रयेनम् प्रथमो अध्यतिष्ठत् गन्धर्वो अस्य रस नाम गृभ्रा चूरादस्वम् वस बोलिरायमो अस्याः नित्यो हर्वन्नसि त्रितो गुह्येन व्रतेन असि सोमे समजाविवृत्त आहुष्ठेत् त्रीणि दिवि बन्धनानि त्रीणिवि बन्धनानि त्रीण्यप्सुत्रेण्यन्तः स मुद्रे उदेव मे वरु नश्चान् सर्वन्यत्रापरमम् चरित्रम् इमा देवादिन्नममार्जनानिमासपानाम् स नितम् निधाना हर्त्रा ते भद्रारसनाभस्य मृतस्य यः अभिरक्षन्ति गोपाः आत्मानम् प्रेमनसारादजानामवो दिव पतयम् तम् पतङ्गम् शिरो अपश्यम् पथिभिः सुखे भीरेन भिह मानम् पधत्री अत्रा ते रूपमुत्तममापश्यञ्जिषमानमिरापदे गोः यदा देवम् अनुभोगमानलादिद्रशिक्षपोषाधीरयीगः अनुमल्यो न कामोऽनुभगः कनीनाम् ्राता सस्तम सख्यमीयरणो देवममिरेबीजन्ते हिरण्यशृङ्गोज अस्य वा दामनो जावजिन्द्र आसीत् देवाजिदस्य विरज्य माजन्त्योऽ अर्वन्तम् प्रथमो अध्यतिष्ठत् यीर्मान्ता सस्यलीकमध्यमासः संसूरनासो दिव्यासो अत्याः हंसाजीवश्रे निक्षे मम स्वाहारम्बद जित्तम् वाताजिभद्रजीमान् तव शृङ्गानिविष्ठीता पुरुत्रारण्येषु जर्भूराणाचरन्ति उपप्रागाच्छसनम् वाज्यर्वाणे भद्री चामनसायी ध्यानः अजः कुरोणीयतेनाभीरस्यानुपश्चात्क्रमयो यन्ति रेभाः उपप्रागात् परमम् यत्सदस्तमर्वाचापितरम् मातरम् चेवाञश्च तमोहि गम्यासुरेवार्याणि अस्य वामस्य पलितस्य होदसुतस्य भ्राता मध्यमो अस्त्य स्नाः भ्राता धृतपृष्टो अस्यात्रामस्य सप्तपुत्रम् सप्तयम् जन्ति रथमेकचक्रमेको अश्व वहति सप्त नामाधीतक्रमजरामनर्वम् यत्रे वा विश्वाभुवनाधीतस्तुः इमाम् रथाधिजे सप्ततस्तु सप्तचक्रम् सप्त वहन्त्यस्वाह सप्तश्रुसाहारो अभिसङ्गे यत्र गाता सप्त नाम प्रथमञ्जायमानमः सन्वन्तम् यत नस्थाभिभर्ति भूम् विद्वाम् समुपागात् प्रष्टोमेतत् पाकः पृच्छामि मनसा वीरानम् देवानाः मेनानि हीता पदानि वत्से भक्ष्कजेभि सप्ततन्तोन्विदत् बाहुविमाञ्चि विदुषस्ति तत्र कवीन् पृच्छामि विद्मनेन विद्वान् विजस्तम् भरविकालजामपि स्विरेकम् अङ्गवे दास्य पापस्य निहितम् पदम्वेः ीर्षः क्षीरम् दुःखते गावो अस्य बभ्रिम्बाना उदयम् प्रदापोः मातापितरमृताग्रे मनसा सम् जग्ने साबीभत्सर्गर्भरसानिविद्धानवस्वन्तजिदूपपाकमीयोः सुयुक्ता माताजीध्वनि दक्षिणाया अतिष्ठद्गर्भो विजनेष्वन्तः े ध्वत्सो अनुकामपश्यद्विश्वरूप्यम् त्रिषु योजानेषु तिस्रो मातृस्त्रीन् पितृन् विभ्रदे कूर्ध्वस्तस्थौमवग्लापयन्ति मन्त्रयम् ते दिवो अमुष्य पृष्ठे विश्वविदम् वाचमविश्वम् जहितज्जराजमर्वर्तिचक्रम् व विद्यामृतस्य पुत्रा अग्ने विथुनासो अत्र सप्तशतानी विंशतिश्चिवाहुपरे अध्ये पुरीषिणम् अन्यकुपारे विलक्षणम् सप्तचक्रे शलराहुरपीतम् पञ्चारे चक्रे परिवर्तमाने तस्मिन्नादस्थर्भुवाराणि विश्वाः कश्च नाक्षस्तप्स्यते भूरि भारः सनादे मनसीर्यते सनाभिः सनेभि चक्रमजरम् विवाहातवत्तालायाम् युक्तावहन्ति सूर्यस्य चक्षुरजासैत्यावृतम् तस्मिन्दार्पीता भुवनानि विस्वाह सा क्जानाहम् सप्तश माहुरे गजम् षणिज्यमार्षयोदे पचाजिति एषामिष्टानि विहितानि धामसश्चात्रे रेदन्ते विक्रेतानि रूपसः स्त्रियः सती स्ताम् भूमे पुंसा हृत्पश्च दक्षन्मान्न विचे दयस्ता रविर्यः पुत्रस्य अवः परेण परजेनावरेण पदा वत्सम् बिभ्राति गोरुदस्तात् सा ल्रीचीकाम् स्विदर्थम् परागात्वा स्वित्सूते नीयूते अन्तः अमःपरेण पितरञ्जो अस्यानुवेद परजेनावरेण कवीयमानः क इह प्रवोचद्देवम् मनः स्तापरा चाहुर्ये पराञस्ताम् अर्वाच आहुः इन्द्रस्तया गच्छतानि धुरालयुक्ता रजासो वहन्ति द्वासुपन्ना सयुजासखा जातमानम् वृक्षम् परीषस्वजाते तयोरन्यः पिप्पालम् स्वार्धतरस्वन्रन्यो अभिजाकशीति यत्रा सुपर्णा अमृतस्य भागमनीवेषम् विदथा विस्वरन्ति इन्नो विश्वस्य भुपानस्य गोपाः समाधिरप्पागमत्रापि वेष यस्मिन्वृक्षे मध्वतः सुपर्णानि विशन्ते सुप ते चाधिविश्वेः तस्येताहुः पिप्पालम् स्वाद्वग्रेदन्नोन्न सद्यः पितरन्न वेद यद्गाहायत्रे अधिगायत्रमाहीतम् त्रैष्टूभात्रैष्टूभम् निरलक्षत च द्वाजगजगत्याहीतम् पदञ्जयित्तद्विदुस्ते आमृतत्वमाहानसुः गायत्रेण प्रतिविमीते अर्कमर्केण ददा मत्रैष्टूभेन वाकम् वाकेन वाकम् द्विपदा च दुष्पदाक्षरेण मिमते सप्तमाणीः जगाता सिन्धुम् दिव्यस्तभाजद्रथम् तरे सूर्यम् पर्यपश्यत् गायत्रस्य सविध स्तिस्रा भस्तुतो वह्ना प्रीरिते महित्वा उपक्वये सुधाम् धेनुमेताम् सुभस्तो गोधुबुधो भदेनाम् श्रेष्ठम् समम् वितासा विषन्नो भीद्धो ृण् वसुपत्नीवसूनाम् वत्समिच्छन्ती मनसाभ्यागात् दुरावश्विभ्याम् वयो अग्नेयम् सावधताम् महते सौभागाय गौरमी मेदनु वत्सम् मिषन्तम् मोर्ध्वानम् हिङ्गा कृणान्मातबाहु श्रुत्वानम् घर्ममभिभाव मायुम् पजाते पयोभिः तेजे अयम् सतिम् ते जे न गौरभीवृतायुम् धसनामधिसृता साधिभिर्निः चकारमत्यम् विद्युद्भवम् जी प्रतिपौरिमौहत अनच्छ दुरगा तु जीवमेतद्ध्रुवम् मध्यापस्यानाम् जीवो मृतस्य चरति स्वधाभिरमत्यो मत्येनासयोनिः अपश्यम् गोपामनीपद्यमानमा च पराः च पसाना सरम् तम् सीजीश्वरीर्वसा न आवारीमर्तिभुवानेष्वन्तः ये जगारनसो अस्य मे दयीन्दर्हिन्न तस्मात् स मादर्यो नापरी वीतो अन्तर्बाहुप्रजानिमाविवेश यौन्मे पिता च नितानाभिरत्र बन्धुम् मे माता पृथिवी महीयम् उन्तालयो सम्भो ओ योनिरन्तरत्रापिता दोहिदुर्गर्भमाधारात् पृच्छामि त्वापरमन्तम् पृथिव्या पृच्छामि यत्र नाभिः पृच्छामि तामृष्टो अश्वस्य नेतः ता पृच्छामि वाचः परमम् व्योम इयम् वेदिः परो अन्तः पृथिव्या अयम् जज्ञो भुवनस्य नाभिः अयम् सोमो वृष्टो अश्वस्य रेतो ब्रह्मायम् वाचः परमम् व्यो होम सतार्थगर्भभुवनस्य रेतो विष्णोऽस्तिष्ठन्त्यशा विधर्मणि र्मण सा देवी पश्चितः परिभुवः परिभवन्ति विश्वदाः नीजानामि यदि भेदमस्मि हिण्यः सन्नद्धोमन साचरामितामागन् प्रथमजातस्यादिद्वाचो अश्नु मे भागमस्याः अपाम् रागेति स्वधयागृभीतो मत्योमत्ये नाशयोनिः स्वन्ताीनाः वियन्तान्या अन्यम् चैत्यम् न निचैक्यरन्यम् ऋचो अक्षरे परमेव्यो वन्यस्मिन् देवाधिविश्वे निषेधो यस्तन्न वेदभृजा करिष्यति येत्तद्विदस्त इमे समासते सूर्यवसाद्भगवती भूया अथो वयम् े विश्वे माञसलिलादक्षत्ये कदीर्जिपदीसा चतुष्पदी कष्टापदीनवपदे बभूविषी सहस्राक्षरापरमेव्यो मनन् तस्याः समुद्रा अधिविक्षरञ्जिते न जीवन्ति प्रतिशश्चतस्रः ततः क्षरत्यक्षरम् तद्विश्वमुपजीवति शकमयम् धूममाहारादापश्यम् विशुभता बलजेनावरेण उक्षाणम् तस्मिममवचन्दवीरास्तानि धर्माणि प्रथमान्याः सन् नयः केचिन ऋतुता विदक्षते भितष्टे सचि भर्द्रादिरेकश्च ददृशेन रूपाम् चत्वादिवात्परिमिता पदाधितानि विदर्ब्राह्मणायेव भीषिणाः गुहात्रि निनिहितारेङ्गयन्ति तुलीयम् वाचो वानुष्याः वदन्ति इन्द्रम् मित्रम् वरु न मग्निमाधुरथो दिव्यश्व सुपन्नो गरुत्पाहाने एकम् सद्विप्रा बहुरावदम् जग्निम् जम्मादलिश्वानमाहो